श्री श्रीगुरुभ्यो नमः हरिः ॐ श्रीमहागणाधिपतये नमः जय जय हे भगवति सुरभारती तव चरणौ प्रणमामः जय जय हे भगवति सुरभारति तव चरणौ प्रणमामः नादब्रह्ममयि जयवागेश्वरी शरणं ते गच्छामः जय जय हे भगवति सुरभारति तव चरणौ प्रणमामः त्वमसि शरण्यत्रिभुवन धन्य सुरमुनिवन्दित सुरमुनि वन्दित चरण नवरस मधुरा कविता मुखरे स्मितरुचिरुचिराभरण जय जय हे भगवति सुरभारती तव चरणौ प्रणमामः नादब्रह्म मयि जयवागीश्वरी शरणम् ते गच्छामः असिना भव मानस हंसे कुन्दतु हि कुरु बोधिविकासम् स्थितपङ्कजतनु विमले जय जय भगवति सुरभारति तव चरणौ प्रणमामः नादब्रह्ममयि जय वागीश्वरि ते गच्छामः ललिताकलामयि ज्ञानविभामयि वीणा पुस्तकधारिणि ललितकलामयि ज्ञानविभामयि वीणा पुस्तकधारिणि मधिरस्तां नो तव पदकमले अयिकुण्ठ विषहारिणि मधिरस्तां नो तव पदकमले अयि विशहारिणी। जय जय हे भगवति सुरभारती तव चरणौ प्रणमामः नादब्रह्म मयि जयवागीश्वरि चरणम् ते गच्छामः जय जय हे भगवति सुरभारति तव चरणौ प्रणमामः जय जय हे तव चरणौ प्रणमामः ॐ शान्तिः शान्तिः शान्तिः